गर्गसंहित खण्डं 10 अश्वमेधखण्डम् अध्यायं फोर्टि फैव् गोप्य ऊचुः अधरबिम्बविडम्बिदविद्रुमं मधुरवेणुनिनादविनोदितं कमलकोमलनीलमुकाम्बुजम् तमपि श्यामलं श्यामलम् लंपडं कोमलं कमलपत्रलोचनं कामदम्ब्रजविलासिनीदृश्यां शीतलं मधिहरं भजामहे तं विसं चलितलोचनाञ्चलं सामि कुड्मलिदकोमलादरम् वंशवल्गिदकराङ्गुलीमुखम् वेणुनादरसिकम् भजामहे ईषदङ्कुरिददन्तकुण्डलम् भूषणम् भुवनमङ्गलश्रियम् कोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् अस्तु नित्यमरविन्दलोचनश्रेयसे हितु सुरार्चिताकृतिः यस्य पादसरसिरुहामृदं सेव्यमानमनिशं मुनीश्वरैः गोपकैरजिदमल्लसङ्करम् शङ्करे जिदविदग्धयौवनं चिन्तयामि मनसा सदैवतं दैवतं निखिलयोगिनामपि उल्लसन्नव पयोदमेव तं फुल्लतामरसलोचनाञ्चलं वल्लवीहृदय पश्यतोहरम् पल्लवाधरमुपास्महे वयम् यद्धनम् जयरथस्य मण्डनम् कण्डनम् तदभि सञ्जितैनसाम् जीवनम् श्रुतिगिरां सदामलम् श्यामलम् मनसि मे स्तो तन्महः कोऽपि कास्तन विलोललोचन परम्परावृतम् बालकेलिरसलालसं भ्रमम् माधवम् तमनिशम् विभावये नीलकण्ठकृदपिशेखरम् वैभवं नीलपङ्कजपलाशलोचनम् नीलकुन्तलधरम् भजामहे दनुगेद वैभवं, सारभूदम अभिराम सारभूतमभिरामसम्पदां धामतामरसलोचनं भजे मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिः नारदादिमुनिभिश्च सेविदम् नन्दगोपतनयम् भजामहे श्रीहरिस्तुलमणीभिरावृदो यस्तु वै जयदि रासमण्डले राधया सह वने च दुःखितास्तम् प्रियं हि मृगया महे वयं देवदेवव्रजराजनन्दन देहिदर्शनमलं च मनोहरे सर्वदुःखहरणं च पूर्ववत् संनिरीक्ष्य तव शुल्कदासिकाः क्षितितलोद्धरणाय दधारयः सकलयज्ञवराह वपुः परं दिधि सुदंविदधारजदंष्ट्रया सदु सदोद्धरणाय स्तु नः मनुमदा मनुमदादृजिजो दिविजैः सख वसुदुदोहधरामपि यः पृधुः श्रुदिमपाधृदमस्य वपुः परं अवहदब्धिमहो गिरिमूर्जिदम् कमठरूपधरपरमस्तु यः असुहरम् नृहरिस्तमदण्डयत्स च हरिः परमं शरणं च नः नृपबलिं चलयन् दलयन्दरीन्मुनिजनान् अनुगृह्य चारयः कुरुपुरं च हलेन विकर्षयन्यदुवरसगदिर्मम सर्वदा व्रजपशुङ्गिरिराजमधो ध्वरन् व्रजपगोपजनं च जुगोपयः ध्रुपदराजसुतां कुरु कस्मलाद्भवतु तच्चरणाब्जरदिश्चनः विषमहाग्नि महास्त्रविपद्गणाः सकलपाण्डुसुधा परी रक्षिताः यदुवरेण परेण चयेन वै भवतु तच्चरणशरणं च मालां बर्हि मनोज्ञकुन्तलभरां वन्यप्रसूनोषिताम् शैलेया गुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीं लीला वेणुरवाग्मृतैकरसिकां लावण्यलक्ष्मीमयीं बालाम्बालकमालनीलवपुरुषं वन्दामहे देवतां गर्ग यदि स्त्रीभिरुदन्तीभिमणानुजः आविर्बभूव चाहुस्तसा मध्ये च चा भक्तिदः यदि श्रीगर्गसंहितायाम् हयमेधण्डे रासक्रीडायाम् पञ्चचत्वारिंशोऽध्यायः ॐ अध्यायम् फोर्टि गर्ग उवाच कृष्णम् समागतम् दृष्ट्वा ताः समुद्धाय हर्षिताः चक्रोर्जय जयारावम् गोप्यो दुःखम् विसृज्य च दृष्ट्वा सम्मूर्च्छिताम् राधाम् गोपीभिप्रार्थितो हरिः चैदन्यार्थे व्रजे तत्र चकारमुरलीरवम् नोद्धृताम् राधिकाम् दृष्ट्वा श्रीराधा वल्लभोहरिः तस्यैः संश्रावयामास वेणुगीतम् पुनः पुनः तद राधा स्मृत्वा दुःखम् वियोगजम् बभूव मूर्च्छिता राजन्माधवस्य प्रपश्यदः तद कृष्णस्य वचनात् सद्यश्चन्द्रानना सखी चन्द्रावलीम् प्रत्युवाच प्रसन्ना कृष्णवेणुना चन्द्राननो वाच कृष्णचन्द्रपुरा निर्गतो मानदो ह्यागदसोऽपि राधे युगान्ते पुनः नाशयन् सर्वदुःखानि सन्निधौ सं जगौ वेणुना देवगीनन्दनः चुङ्गचुङ्गे निनादमृदङ्गे कलं वाद्यमाने सुरस्त्री जनैः सेविदः रासरम्याङ्गणे नृत्य कृन्माधवसं जगौ वेणुना देवगीनन्दनः चारुचामीकराभासि वासा विभुर्वैजयन्तीं भराभासितोर्हस्तलः नन्दवृन्दावने गोपिका मध्यगसं जगौ वेणुना देवगीनन्दनः चारुचन्द्रावलीलोचनाचुम्बितो गोपगोवृन्दगोपिकावल्लभः कंसवंशाटविदाहदावानलसं जगौ वेणुना देवगीनन्दनः बालिका तालिका ताललीलालया सङ्गसन्दर्क्षिदभ्रूलदा विभ्रमः गोपिकागीदधत्तावधानस्वयं संजगौ वेणुना देवगीनन्दनः मौलिमालाङ्गदैकिङ्गिणिकुण्डलैर्भूषितो नन्दनो नन्दराजस्य च प्रीतिकृत्सुन्दरो देवि प्रीत्या तव सम् जगौवेणुना देवकीनन्दनः पारिजादम् समुद्धृत्य राधावरो रोपयामास भामा भयादङ्गणे पल्लवीवृन्दवृन्दालिकामुकः संजगौ वेणुना देवगीनन्दनः वृक्षराजं विनिर्जित्य नित्वमणिं सं ददौ भिदवद्भूमिनाधाय च सोऽपि रासे समागत्य रासेश्वरो सञ्जगौ वेणुना देवगीनन्दनः गर्ग उवाच यदि श्रुत्वा राधिकादुमहिमाम् वेणो वादिनः प्रसन्नाहिसमुद्धाय परिरेभे प्रियम् प्रिया वृन्दावने शोभोविन्दो रे मे वृन्दावने वने वृन्दावननिवासिन्या पश्यन्नु वृन्दावनद्रुमान् तद कृष्णम् वर्षाकाले नृपश्रेष्ठसौदामिन्यो यद्धाकनं यावधिस्तत्र गोप्यश्च तावद्रूपधरोहरिहि हरिः यमुना पुलिनं रामस्ताभिः सागं च श्रुदयः स्ववस्त्रै कृष्णचन्द्राय ह्यासनम् ता अचीकृपन् श्रीराधारमणस्तस्मिन्नासने सह सहराधया निशसादह्यको राज्यं स्ताभिर्भक्त्या वशीकृतः गोलोके यादृश्यम् रूपम् दर्शयामास तादृश्यम् गोपीनाम् राधया सार्धम् कृष्णम् त्रैलोक्यमोहनम् दृष्ट्वा गोकुलचन्द्रस्य सुरूपम् परमाद्भुतम् स्वात्मानं न विदन् गोप्यो ब्रह्मानन्देन निर्वृताः स्थले कृत्वा विहारम् दुविवेश यमुना जलम् तापीर्भक्त्या वशीभूतो म् भगवान् स्त्रीभिः सार्धं चकारः मन्ताकिन्यां यथा शक्रो ह्यप्सरोभिर्वृतो दिवि माधवो माधवीं राजन्माधवी माधवम् जले अन्योन्यम् तौ शिशि च दुःसलिले सलिलैस्त्वरम् कबरिकेशपाशाभ्यां प्रच्युतै कुसुमैर् बभौ यमुना चित्रवर्णैश्च मुद्रिता नृप विद्याधर्यो देवपत्न्यपुष्पवर्षम् प्रचक्रिरे प्रश्लधुवस्त्र नी व्यस्ता मोहम् प्राप्ता स्मरातुराफ अथ कृष्णो वारिलीलाम् कृत्वा वैडीलयायुधः जलान्निष्क्रम्य राजेन्द्रगिरिं गोवर्धनं व्ययौ अनुजग्मूर्गोऽपि कास्तं सहचर्यो नृपेश्वरा काश्चिद्व्यजनहस्ताश्च काश्चित् चामरवाहकाः काश्चित्ताम्बूलहस्ताश्च काश्चिद् दर्पणवाहकाः काश्चिद्भूषणहस्ताश्च काश्चित्कुसुमवाहकाः काश्चिच्चन्दनहस्ताश्च काश्चिद्भाजनवाहकाः काश्चिद् यावकहस्ताश्च काश्चिदम्बरवाहकाः काश्चिन्मृदङ्गहस्ताश्च काश्चित् कांस्यधराश्च वै मुरयष्टिधरा काश्चित् काश्चिद्वीणाधरा पराः करतालकरा काश्चित् काश्चिद्गानपरायणाः षत्रिं शद्रागरागिण्यो व्रजस्त्रीरूपधारकाः गोलोकात् भारते पूर्वमागदाराधया सह जगुस्ता नृतुस्तत्र श्रीराधेश्वरसन्निधौ ननार्तमध्येतासां च कृष्णो मदनमोहनः प्रगायन्वेणुनागीतम् त्रिलोकिं मोहयन्हरिः वाधित्रैकिङ्किणीभिश्च वलयनूपुरकङ्कणैः गीतैर्मिश्रितशब्दो भूतु मुलो रासमण्डले देवाश्च देवपत्न्यश्च रासम् दृष्ट्वा हरेरपि बभूव मूर्च्छिता राजन् गगने स्मरपीडिताः चन्द्रिकायाम् तु चन्द्रस्य च दुरश्चञ्चलश्चलन् चन्द्रावल्या बभौ चैव घनश्चञ्चल एव च राधायास्तत्र शृङ्गारम् स्रग्भेर्यावककज्जलैः चक्रेकमलपत्राद्य गिरौ गिरिधरो महान् कुङ्कुमा गुरुकस्तूरी चन्दनाद्यैश्च राधिका चक्रेकमलपत्रं वै श्रीकृष्णस्यानने वरं तदश्च सस्मिता सस्मिदं भगवन्मुखं पश्यन्ति नागवल्याश्च भीटकं प्रददौ प्रिया प्रदत्तं ताम्बूलम्बुभुजे नन्दनन्दनः कृष्णदत्तं च ताम्बूलं चखादरधिका मुदा कृष्णचर्विदताम्बूलं नित्वा राधा बलात् पुनः चखा सभक्त्या सा शीघ्रं सदीपदि परायणा प्रिया चर्विदताम्बूलं ययाजे भगवान् हरिः राधा ददौ नदम्भिदापपाद तत्पदाम्बुजे पद्मा पद्मावधि नन्दी आनन्दी सुखदायिनी चन्द्रावली चन्द्रकला वन्द्या ह्यदा हरिप्रियाः वृन्दावने हरिस्ताभ्य वसन्त तु प्रपूरिते नानाप्रकारम् शृङ्गारम् काश्चित् पिबन्दि गोप्यस्तु मृदं। धरामृतम् काश्चिद्वालिङ्गनम् चक्रुकृष्णस्य परमात्मनः तद कृष्णस्तु भगवान् गोपीनाम् कुज कुङ्कुमैः सुवर्णवर्णो भूत्वा वैरेजे मदनमोहनः पुनर्गोपीजनैः सार्धं श्रीगोपी जनवल्लभः रासम् चकारराजेन्द्रसुन्दरे कदलीवने ये मम् ये वं हे मन्दरजनी गोपीनाम् रासमण्डले व्यतीताक्षणवद्रा जनित्या नन्देन तत्र वै अध नन्दस्य सदनम् रासम् कृत्वा ययौ हरिः वृषभानुपुरम् राधा तथा कोऽप्यो गृहान्ययुः न जानन्ति व्रजे गोपरासवासां हरेरवि स्वान् स्वान् दारान् स्वपार्श्वस्तान् मन्यमाना नृपेश्वर इदम् शृङ्गारचरिदम् राधा परम् ये पठन्ति च शृण्वन्ति ते व्रजिष्यन्ति चाक्षरम् इति श्रीगर्गसंहिताया हयमे दखण्डे रासक्रीडा सम्पूर्तिर्नाम शोध्यायः ओम् अध्यायम् 47 सेवन् गर्ग उवाच इदम् कृष्णस्य च जितम् गुप्तम् शास्त्रेषु मया तवाग्रे राजेन्द्र अधान्यशृणु विस्तराद एवं स्थित्वा दिनान्यष्ठौ श्रीकृष्णो नन्दपत्तने आनन्दम् प्रददन्नृणाम् पुनर्गन्तुम् मनो दधे यशोमदीकृष्णमादा विप्रियं सुदम् गन्तुमभ्युदिदम् दृष्ट्वा रुरोदोश्चैर्यथा पुरा रुरुदुस्तत्र गोप्यश्च बाष्पर्याकुलेक्षणाः स्मरन्ध्य पूर्वदुःखानि गेहे गेह नृपेश्वर यावत्यो व्रजनाल्यश्च तावद्रूपधरो हरिः पृथगाश्वासयामासाराधांसको विदः मादरम् प्राप भगवान् मादशोकम् तु मा गुरु शीघ्रमत्रागमिष्यामि क्रदूक्तमं क्रदूक्तमम् त्वम् न मन्यसे चेन्मातर्नित्यम् द्रक्षसि चान्तिके पुत्ररूपम् च माम् भक्त्या कृतान्तभयभञ्जनम् एवम् ताम् तु समाश्वास्य निष्क्रम्य सदनाद्धरिः गोपैर्युक्तोऽश्रुपूर्णाक्षपौत्रसेनां जगामः गत्वा निरुद्धसेनायां यादवान् हयमोचने ददा वाच्यां नृपश्रेष्ठ साक्षान् नारायणो हरिः नोदितकृष्णचन्द्रेण नो हयम् सम्पूज्य यत्नदः पुनर्मुमोच तौ पौत्रो विजयार्थे हि पूर्ववद यादवाश्चानि रुद्धाद्यानन्दं नत्वाश्रुपूरिता गुमारुरुः सर्वे वाहनानि च पृच्छ्रदः कृष्णाकारान् कृष्णपुत्रान् कृष्णपौत्रांश्च सुन्दरान् गन्तुमभ्युदितान् सर्वान् कृष्णेन सहितान् यदून् दृष्ट्वाते दृष्ट्वा तेरुदुर्गोपा गोविन्दविरहातुराः स्मरन्थपूर्वदुःखानिशुष्ककण्ठौष्टतालुकाः रुरोदनन्दराजोऽपि बाष्पव्याकुलोचनः न किञ्चिदूचे दुःखार्तो मुखे न परिशुष्यता सर्वानाश्वासयामास कृष्णोऽप्याश्रुपरिप्लुः आयास्य इति वाक्यायश्च मिलित्वादु चैत्रमासे यदा यज्ञद्वारकायाम् भविष्यति आह्वयिष्यामि गोपालायुष्मान् सर्वान्न संशयः गोपाल गोकुले नित्यम् गोपालम् माम् हि द्रक्ष्यध तस्मान्निवासम् कुरुत अत्रैव व्रजमण्डले एवमाश्वास्य तैर्दत्तम् पारिबर्षम् प्रगृह्य च नन्दम् नत्वा रथे स्थित्वा प्रायाद्वृष्णिवरैर्हरिः नन्दाद्या दुःखिता गोपा चरणाम्बुजे क्षिप्तम् मनः पुनर्हर्तुमनीषा गोकुलं ययुः गोपागोप्याश्च श्रीकृष्णम् प्रेममग्नाश्च नित्यशः समीपे नृपपश्यन्ती योगिनामपि दुर्लभम् इति श्रीगर्गसंहितायाम् हयमेदखण्डे व्रजादन्यत्र गमनं नाम सप्तचत्वारिंशोऽध्यायः अध्यायम् oh, um, 48 एय्ट् श्रीगर्ग उवाच कृष्णाम् समुत्तीर्य तदप्रपश्यन् जगामवाजी कुरुपत्तनम् च करोदिराज्यम् नृपचक्रवर्ती वैचित्रवीर्यो फलवान् हि यत्र तदोदर्शतुरघः कौरवाणाम् पुरं वरम् तम् नानोपवनैर्युक्तम् तडागैष्टसरोवरैः दुर्गेण गङ्गया युक्तम् तदा परिखया नृप सुवर्णरौप्य सदनैर्महाशूरजनैर्वृदम् सुयोधनस्य पुरा द्विनिर्गदो हन्तु मृगान्वै वनगोचरान् नृप ददर्शयज्ञस्य हयं सपत्रकम् रथस्थितो विरजनैर्विभूषितः दृष्ट्वा तुरङ्गमम् प्रेद स्वरधादवधीर्यज मानी दुर्योधनो राजम् स्वरम् जग्राहलीलय कर्णभीष्म कृपद्रोणभूरि दुःशासनादिभिः युक्तस्तद्भालपत्रम् च वाचयामासहर्षिदः चन्द्रवंशे यदुकुल उग्रसेनो विराजदे इन्द्रादयसुरगणा यस्यादेशानुवर्धिनः सहायो यो यस्य भगवान् श्रीकृष्णो भक्तपालकः अस्ति वै द्वारकापुल्याम् तद्भ्र्या निवसन् हरिः तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः हा। चक्रवर्तीहडाध्यज्ञम् स्वयशोऽर्थे करोतिः मोचितस्तेन तुरगोहयानाम् प्रबलशुभः तद्रक्षः कृष्णपौत्रो निरुद्धो मृगदैत्यः गजाश्वरथवीराणां सेनासङ्घसमन्वितः राजानो ये राज्यं कौशूरमानिनः ते गृह्णन्तु यज्ञ हयम् स्वबलात् पत्रशोभितम् तमोच यदि धर्मात्मा गृहीतं च हयम् नृपैः स्वबाहुबलवीर्येणानिरुद्धो लीलया हठाद तस्यान्यथा पदित्वा यान्तु धन्विनः गर्ग उवाच तत्पत्रम् वा जयित्वैवम् कौरवास्ते दुशत्रवः ऊजुपरस्परम् क्रुद्ध मानिनो रक्तलोचनः कौरवावूजुः अहो किम् लिखितम् दृष्टैर्भालपत्रे हयस्य च न सन्ति किं हि राजानो यादवानां च सम्मूके। राजसु ये पुरा अस्माभिर् यादवा ये विनिर्जिताः हयमेधम् करिष्यन्ति पुनस्ते गदबुद्धयः तस्मात् सर्वान् विजेष्यामो न दास्या मस्तुरङ्गमम् पश्चाद्वयम् करिष्यामो हयमेधम् क्रदुत्तमम् क उग्रस नः क कृष्णो हयराक्ष हयरक्षाकरस्तु कः यादवै सहि दाह्यते किम् करिष्यन्ति पौरुषम् कृष्णाद्या यादव सर्वे विहाय मधुराम् पुरीम् तदा समुद्रम् युद्धं युद्धम् त्यक्त्वा भयाचनः दत्तं दत्तम् पुराह्येषामस्माभिश्च कृपान्वितैः कृधग्नास्तेज मन्यन्ते स्वात्मानम् चक्रवर्धिनम् पाण्डवानाम् च सम्मानाध्यादवा न हि मारिताः निष्कासिताश्च तेऽस्माभिः पाण्डवा च पलायितान् दर्शयामश्चाहुकाय एवम् श्रीकृष्णविमुखा वाचः सर्वे वदन्तिः तृप्तास्ते कौरवा राजन्श्रिया राजविभूतिभिः ततश्च जगृहु सर्वे नानाशस्त्राणि वे गतः अयम् प्रवेशयामासु पुरे तत्रदु दुसंस्थिताः गदे चतुरगे दूरं साम्भ नोदितः रम् कृष्णाम् समुत्तीर्य गम्भीरां मार्गदायिनीम् अक्षौहिणीभिर्दशभिपृष्टो भी दंशिदोरुषाम् हस्तिना पुरमक्रूर युयुधानादिभिर्ययौ एवम् ते यादव सर्वे हस्तिना पुरसन्निधौ अयादाहय हर्तृंश्च कौरवान् ददृशु ऊचुस्त्यवीक्ष्य बलिनो लोकद्वयजिगीषवः तान् सर्वांश्च तृणीकृत्य याधव कृष्णदेवताः अहो बबन्त कश्चाश्वम् कस्य हृष्टकृतान्तराड प्राप्स्यते कस्तु सङ्ग्रामे नारा चै परमां व्यथाम् अहो वै किम् न जानन्ति विष्णेन्द्रम् चक्रवर्दिनम् उग्रसेनम् राजराजम् देवदानवन्दिदम् राजतूयस्य कर्तारमद्वितीयम् नृपेश्वरम् नृपा स्वात्मविनाशाय गृह्णन्ति तुरगम् तदः बहोभीषण एव च बल्वलश्च नृपाः सर्वे रणेऽस्माभिर्विनिर्जिताः इति श्रुत्वा कौरवास्ते क्रोधप्रस्फुरिदाधराः प्रत्योचुस्तान् हि पश्यन्तस्तिरश्चीनैश्च चक्षुभिः कौरवानुगा ऊजुः गृहीतस्तु रघोऽस्माभिर्यूयं किं नु करिष्यथ युष्मान् सर्वान्नयिष्यामः सायकैर्यमसाधनम् उग्रसनकदि नैराज्यं लब्ध्वा तु कृष्णतः मानं करोदितं बद्ध्वा राज्यं कुर्मो वयं किल अनिरुद्धस्तु पुत्रास्ते ह्यस्माकं च भयाद्गदः वदतैनं शरैर्युध्ये पूजयामो न संशयः गर्ग उवाच इति तेषां वच श्रुत्वा यादव क्रोधमूर्च्छिताः शिक्षिपुस्तायकांश्चा भै कौरवाणां मुखेषु च केचिद् बभूवुर्बणैश्च छिन्नजिह्वाश्च कौरवाः भग्नदन्ताश्चिन्नमुखा वमन्दो रुधिरम्बुः दुर्योधनं छिन्नमुखा निहतास्ते ययुर्धृतं पृष्टास्ते कथयामासुर्यादवै प्रकृतं च तद् यदि श्री गर्गसंहितायाम् हयमेधण्डे कौरवैश्यामकर्णग्रहणम् नामाष्टचत्वारिंशोऽध्यायः ओ अध्यायम् 14.9 नैन् दुर्योधनस्वीराणाम् भीष्मद्रोणकृपादिभिः भी दृष्ट्वा मुखानि भग्नानि कोपम् कृत्वेदमब्रवीद अहो वै यादवास्तुच्छा आगदा मृत्युसम्मुखे किं न जानन्ति ते मूढा धृतराष्ट्रबलं महद इत्युक्त्वा प्रेषयामासु स्वां सेना चतुरङ्गिणीं गजाश्वरथवीरैश्च युक्तां युद्धे ज सा चचालमः सेना कम्पयन्ती महीतलम् अक्षौहिणीभिर्दश्यभिसयन्ती बलाद्रिपून् आयान्तीम् ताम् तदो दृष्ट्वा साम्भोजाम् भवती सुतः स्वाम् नोदयामास हर्षाद्वीरैर्विभूषितः ततश्च कौरव सर्वे रक्षणार्थं तु स्वात्मनः क्रौञ्चव्यूकं विनिर्माय तत्र सर्वे हि संस्थिताः आसीतस्य मुखे भीष्मो ग्रीवायां द्रोणये वच पक्षयो कर्णश गुनी तस्य पुच्छे सुयोधनः मध्ये तस्य महासेनाचतुरङ्गबलैर्युधा कृतम् हि ददृश्युर्व्यूहम् क्रौञ्चम् शत्रुदुर्जयं। शत्रुदुर्जयम् क्रौञ्चव्यूहम् तत्र दृष्ट्वा यदवो युद्धशङ्किताः ऊचोहे साम्ब त्वमपि प्रयत्नदः। व्यूहम् प्रयत्नतः इति तेषाम्ब च श्रुत्वा साम्ब युद्धं कर्तुम् प्रचलिते ते द्वे सेने यदा नृपा तदा मुहूर्त मुहूर्तपर्यन्तम् चकम्पे वसुधा भृशम् जग्नोर्भेर्यश्च शङ्काश्च शुभयोः सेनयोस्तदा टङ्काराश्चैव च बानाम् श्रूयन्ते तत्र तत्रा, तत्रा गर्जन्ति दन्दिनस्तत्र हया हे शन्ति तत्र शब्दं शूर प्रकुर्वन्ति नं दन्दि रथनेमयः सैन्यपादरजोभिश्च ह्यन्तकारो भवद्रणे मलिनं गगनम् भूत्वा सूर्यस्तत्र न तदसमभवद्भृश्यम् बाणैर्गदाभिपरिघैः शदग्निभिश्च शक्रिभिः परस्परम् ते युयुधुराभवे निशिधै शरैः गजा गजैरधारथैर्हयाहयैर्नरा नरैः शरान्धकारे सञ्जादेशाम्भो बाणैर्धनुर्धरः ण युयुे क्रूरकर्णेन त्र चुधान शुनी न द्रोणाचार्य सारण दुर्ोधन संग्रा सा तिशीघ्र बलिदुशासनावर्माधुरीं परम से संग्रामो भयकार तदः साम्बस्तु संक्रुद्धः सज्जम् कृत्वा धनुर्धृढम् टङ्कारयामास तदा शूराणाम् कम्पयन् हृदि श्रीकृष्णम् प्रथमम् नत्वा मुमुचे सायकान्दश तानागताञ्चरान् भीष्मचि चेदस्वशरैरभि रणे साम्ब पुनस्तस्य कवचे सायकान्दश निजकानस्वर्णमयान्नदम् कृत्वा दुःसिंहवद चतुर्भिसायकैस्तस्य निजग्ने च दुरोहयान् चिच्छेदबानैर्दशभिस्तत्कोदण्डं गुणान्वितं सच्चिन्नधन्वा विरधो अदाश्वो हतसारथीः उद्धाय भीष्म सहसा गतां जग्राह रोषदः साम्ब प्राह त्वया सार्धम् कथम् युद्धम् करोम्यहम् पदाति नारथम् चान्यम् तुभ्यम् दास्यामि संयोगे स शास्त्रम् स्यन्तनम् युध्य त्वम् गृहाण कुरुद्वः जय माम् स उवाच तद क्रोधात् प्रस्फुरिदाधरः दन्दान् दन्दर् दन्तान्ततायर्विहन्नोष्टम् जिह्वया रक्तलोचनः त्वदत्ते स्यन्दने स्थित्वा यदा युद्धम् करोम्यहम् तदा भवति मे कीर्तिपापम् निरयमेव च प्रदिग्रहपराविप्रदादारश्च वयम् स्मृताः दत्तम् राज्यम् श्रुत्वा तद्वचनं साम्ब प्रत्युवाचरुषान्विदः भयाद्राज्यं प्रदस्यं राजानो मण्डलेश्वराः निरीक्ष्य भूमौ शास्तारं संस्थितम् चक्रवर्धिनम् इत्येवं वाक्यमाकर्ण्य भीष्मश्यूरशिरोमणिः जखानकदया भुर्व्या गदाप्रहारव्यथितसम्भ सम्मूर्च्छितो भवद सारस्थितम् रथे कृत्वा पो वाकशङ्कितोरणाद कोलाफलस्तदैवास्यीद्यदु सैन्ये सङ्ग्रामे तत्र राजेन्द्रसात्यकिश्च सुयोधनं चक्रे बाणैश्च विरधं गृध्रपक्षैः स्फुरत्प्रभैः विरधो विरथं चान्यं समारुह्य वेगदः तं शत्रुं विरथं चक्रे शरैराशिविशोभमैः सचान्यं रथमारुह्य सात्यकि शीघ्रविक्रमः बाणेनैकेन तध्यानं चिक्षेपनृपयोजनं रथपपादभूमध्ये ससूदः सतुरङ्गमः अङ्गारवद्विशीर्णोऽ भून् मूर्च्छितोऽभूत् सुयोधनः तदा द्रोणस्तु संक्रुद्धो बाणेनाग्निमयेन च जखानसत्यगिं युद्धे स्वशत्रुं तु विहाय वै रद्धस्तु तस्य दग्धोऽभूत् स तु दग्धाङ्गो बाणज्वालया कृतवर्मा तत क्रुद्धो भूरिं जित्वारणाङ्गणे आजगामनदन्राजन् सगत्वा गत्वा प्रधने रोषा द्रोणाचार्यं शरैरपि चक्रे पदादिनं वीरो निःशस्त्रं चिन्नकञ्चुकं ततः कर्णस्तु संक्रुद्धस्त्यक्त्वा क्रूरं रणाङ्गणे तथाडकृतवर्माणं शक्रियाशक्तिवदारगं सशक्तिस्तत्तनु विवेशधरणीतले निर्भिन्नहृदयो कृतवर्मा पपातः युयुधानस्ततः कोपान् निर्जित्य शकुनिं मृधे कर्णस्योपरि राजेन्द्रख्या जगामरथेन च गत्वा शरासनेनापि मुमुचे सायकान्दशा वीक्ष्यतानागतान् कर्णो निजका न स्वसायकैः संहृष्टास्तत्र तयोर्बाणा परस्परम् विस्फुलिङ्गाक्षरं तस्ते भ्रमन्ते लादचक्रवद युयुधानस्तद कोपकर्णस्य जगदीपदे जखानकवचे बाणान् काकपक्षयुधाञ्चिदान्ते शरकर्णकवचे न लग्नापदि धा भुवि राजन्पापस्य कर्तारो न स्वर्गे यथा तदप्रपस्य कर्णस्तु युयुधानम् च विस्मितम् चकारविरधं विरथम् युद्धे शरैर्नानास्त्रयोजितैः दुःशासनम् बलिम् चैव कृत्वा युद्धे विमूर्च्छितम् आययौ संयुगे कर्णम् रथेनानलवर्चसा आगदं बलिनं दृष्ट्वा कर्णो भास्करनन्दनः पवनास्त्रेण बाणेन तम् शिक्षेप पपादयोजने सोऽपि अंधकारं अन्धकारं कुर्वन् कौरवान् मारयन् रुषा इति श्रीगर्गसंहितायाम् कयमेधखण्डे यदुगुरुसङ्ग्रामवर्णनं नाम मैको न पञ्चाशत्तमोऽध्यायः ओ अध्यायम् फिफ्टि गर्ग उवाच तदैव वृष्णय सर्वे भोज वृष्ण्यन्धकादयः माधुराशूरसेनाद्या समुत्तीर्य यमस्वसाम् रजोभिश्च न भो व्यातम् कुर्वन्तश्च महीतलम् चालयन्तश्च बलिनो महासङ्ग्रामकर्कशाः विलोकयन्तस्तुरगम् सर्वतस्ते महाबलाः आजग्मुस्तानि रुद्धाद्या श्रीकृष्णाद्या नृपेश्वर वृष्ण यस्तत्र युद्धस्य महाकोशम् भयङ्करम् शरासनानाम् टङ्कारम् शदघ्नीनाम् रवम् तथा शूराणाम् गर्जनम् चैव शस्त्राणाम् चक्षडम् तथा कोलाफलं च ककारं श्रुत्वा ते विस्मयं ययुः मत्वा ते युद्धमासीद्वै यादवानां च कौरवैः सङ्गिता अनिरुद्धाध्या कृष्णाद्या आयुर्धृतम् श्रीकृष्णमागतं दृष्ट्वा निरुद्धाद्यै समन्वितम् ससैन्यं च सहायार्धम् नेमुस्साम्भादयो नृपा कृष्णे समागते ने दुर्भेर्यशङ्काश्च गोमुखाः पुष्पवर्षम् च या गावम् यादवाः दृष्ट्वा निरुद्धं प्रधने समागतम् ह्यक्षौहिणीभिषदभिः समन्वितं प्रचालयन्तं वसुधां महाबलम् विदुद्रुवुश्चेदु भया च कौरवाः प्रलयाब्धिसमम् सैन्यमन्धकानाम् विलोक्य भी च भीताश्च दुद्रुगुर्वैश्या गेहे गेहे कृतार्गलाः ब्राह्मणाः क्षत्रिया वैश्या वृषला स्त्रीजनास्तथा दुर्योधनम् शपम् तश्च रुरुदुर्निर्गदा तदो विहाय मूर्च्छाम् वै मृधे दुःशासनाग्रजः सद्यः सुप्तैवोत्तस्थौ यदु सैन्यम् ददर्शः दृष्ट्वा भयम् सेनाम् यादवानाम् सुयोधनः स्वगुरम् सङ्गितो भूत्वा पद्भ्याम् भीदस्त्वरम् ययौ कर्ण भीष्म कृपद्रोण सभायां धृतराष्ट्रं वैनत्वा सर्वमवर्णयन् स्वानाम् पराजयम् श्रुत्वा यादवानां जयम् तथा कृष्णस्यागमनं चैव नृपो विदुरमब्रवीद धृतराष्ट्र उवाच अक्षौहिणीषदयुदेवासु देवे समागते कुपितेऽद्य वयं वीरकरिष्यामश्च किं वद नृपस्य वचनं श्रुत्वा प्रहस्य विदुरोऽब्रवीद विदुर उवाच पुरारामेण चैकेन कुपितेन गजाह्वयम् विकर्षितं च गङ्गायां तस्य भ्राता हि जागदः हृत् कञ्च कोशाद्देवख्यां जाधो यत्स हरिर्नृप येन वै संयुगे राजन् शकुनादयः मारिदाम्बकवो दैत्या निर्जिताश्च नृपाः सुराः तस्माद्युद्धस्य समयो नास्ति राजन्विलोकया कौरवेश्यामकर्णं तु कृष्णा यदातुमर्हसि मा भूत्कुरूणां वृष्णीनां फलको नाशकारकः एवं राजा बोधितस्तु विदुरेणानुजेन उवाच कौरवान् प्राज्ञो देशकालोचितम् वचः धृतराष्ट्र उवाच गत्वा कृष्णस्य निकटे तुरगम् दातुमर्हत सम्मुखे देवदेवस्य युद्धम् कर्तुम् जनार्हत यादवानाम् सहायार्थमागदं कुपिदं हर्यं। यूयम् प्रसन्नम् कुरुद गत्वा शनैः कौरवेन्द्रस्य वचनम् कौरवास्ते निशम्यज विविधानुपचारांश्च दन्ताक्षदयुधान् विहित्वा दिव्यवस्त्राणि रत्नानि विविधानि ज वदन्तः पुण्यनामानि रामकेशवयोर्मुदा भयान्विदाः आगतान् कौरवान् दृष्ट्वा नानाशस्त्राणि जगृहस्तत्र युद्धाय वेगदः ऊजुस्थान् कौरवात् सर्वे वयं युद्धाय नागदाः करिष्यामश्च कृष्णस्य दर्शनं दुःखनाशनम् यदि तेषां वच श्रुत्वा विस्मयं गताः कृष्णाय कथयामासु कौरवाणां विचेष्टितं तदा कृष्णस्य वचसा कौरवान् यदुसप्तमाः आह्वयामासुस्ते पीता निःशस्त्रा नागदा नृप आहुतास्तेदु हरिणा गत्वा श्रीकृष्णसन्निधौ लज्जयावाङ् मुक्ताः सर्वे प्रणम्योजुपृथक् पृथक् पूर्वम् द्रोण उवाचादकृष्णभद्रजगत्पदे रक्ष मां गौरवान् रक्षमाय या तव मोहिदान् कृपाचार्य उवाच मज्जन्मनफलमिदं मत मधुकैडभारे मत्प्रार्थनीय मदनुग्रह मत एष एव त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य भृत्यस्य भृत्य यदि मां स्मरलोकनाथ कर्ण उवाजा भक्तस्यार्थे धनं क्षीणं स्वदारगदयौवनं स्वामिकार्ये गदा प्राणा अन्धे तिष्ठन्तु माधव भोरिरुवाच राजा नाद प्रसीद नादप्रसीदसुमुखी यदि दिव्य दिव्यदृष्टिः अस्माभिरञ्जलिरयम् विवशैर्निबद्ध निबद्ध यशैवमे भवदु देव भवान्तरेपि दुर्योधन उवाच जानामि धर्मं न च मे प्रवृत्तिर्जानामि पापं न च मे निवृत्तिः केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि करोमि यन्द्रस्य गुणदोषेण क्षम्यतां मधुसूदनम् अहम् यन्द्रो भवान्यन्द्री मम दोषो न दीयताम् भीष्म उभजा राधान् रागान्धगोपीजनचुम्बिताभ्याम् योगीन्द्रभोगीन्द्र निवेशिताभ्याम् आदाम्रपङ्केरुह कोमलाभ्यां चाभ्याम् पदाभ्याम् मयञ्जलिर्मे विदुर उवाच आस्तेदिविक्रयकृतां सुकृतानि तानि ये ब्रह्मबालमिव तत्परिपालयन्ति यद् दैत्यदेवमुनिभिर्मनः साभ्यगम्यं यन्नेदिनेदिज च वेदवेदः हि वेद वेदः श्रीगर्ग उवाच एवं सम्प्रार्थितकृष्णकौरवै प्रीतप्रत्यागतान् राजन्मेघनिर्हादया गिरा श्रीकृष्ण उवाच आज्ञाशृणुदमद्वाक्यमहमागतवान् यदः युद्धम् वारयितुम् चात्र नारदेन प्रणोदितः न मन्यन्ते ममाज्ञां वैमत्पुत्राश्च निरङ्कुशाः दीर्घाणां च प्रगुर्वन्दिह्यपराधं च दूषणम् यूयम् धन्याश्च मन्याश्च मिलनार्थम् समागताः मत्पुत्रैश्च कृतम् यद् वै तत्सर्वम् क्षन्तुमर्हत उग्रसेन हयम् वीरा कृपया च विमुच्यताम् पालनार्थम् तु तस्याभियूयम् गच्छद गच्छद यादवा कौरवामित्रा कलहम् विक्लोक्य वन्दे कृष्णदेवेन मिष्टवाक्यैश्च तोषिताः तुरगं च ददुप्रीता परिबर्हेण संयुधं दत्त्वा तुरङ्गमं सर्वे कौरवाखिन्नमानसाः स्वपुरं विविशूराजन् भीष्मो गन्तुं मनो दधे इति श्रीगर्गसंहितायां हयमेधण्डे अस्तिना नाम पञ्चाशत्तमोऽध्यायः ओ अध्यायम् फिफ्टि गर्ग उवाच अथ कृष्णस्तु भगवान् यादवानाम् च पादनम् कृत्वा मिलित्वा प्रययौ रथेनापि कुशस्थलीम् कृष्णे गते निरुद्धस्तु अयम् सम्भूज्य यत्नतः बन्धनान्मोचयामास विजयार्थे तृपेश्वर मुक्तस्तुरङ्गस्प्रयौ देशान् देशान् विलोकयन् पृष्टतस्तस्य राजेन्द्रत्वरम् जग्मुश्च वृष्णयः